Oh प्रसवेश्मिन् भागभ्याः ओष्णो हस्ता भ्यामादलय विरसि नारिरसि परिणशि रक्ष परिणशि भागम् रक्षत देहापि गन्तामि वयन्तेष्म इदमस्य देहा अपि गन्तामि दिवेत् त्वान्तरिक्षाय तापृथिव्येत् त्वा यवया स्पद्वेषो यवया राधे तृणागं सदनमस्तिभ्यवग्रस्तभान्तरिक्षं प्रणपधिवेन्द्रगं ह्युगानस्त्वा मारुतो विनोदमित्रा वरुणयाध्रुवेण धर्मणा ब्रह्मवनिन् त्वा क्षत्रवनिगं स्वप्रजावनिगं रायस्त्वशवनिं वर्यो हा विब्रह्मदृग् क्षत्रेन्द्रगं पृथिवी आवृणयथामिन्द्रस्य सतोऽसि विश्वजरस्य छाया परित्वा गिमणा गिरयिमा भवन्त विश्वसा वृद्धा यमनवृद्धया जुष्टा भवन्त जुष्ट्रस्यो रतेन्द्रस्य ध्रुवमस्य इन्द्रमतीन्द्राय त्वा वैष्णवान् घनामेदमहन्तं वलगमुद्वपाभियन्नः समानो यमसमानो निजखानेदवे यो नः समानो यमसमानो राज गायत्रेण छन्दसा वबाधो वरह किमत्र भद्रं तन्नौ सह विराड जिगपदम्ब्राणजिभ्रातुर्यहा स्वराणस्यभिमादिहा विश्वाराणी विश्वाधान्नाष्टा रक्षो हनो बलगहन प्रोक्षामि वे नवान् रक्षो हन बलगहनो वनयामि वेत् नवान् यवो दे नो यवयानादि रक्षो हो बलगहनो वस्त्रिणामि वेत् नवान् रक्षो हन बलगहनभिजुहामि वेत् नवान् रक्षो हनो बलगहन उपदधामि वे न वि रक्षो हनो बलगहनोपर्युहामि वेत् नवे रक्षो हनो बलगहनो परिसृणामि वेष्णवे रक्षोहनो बलगहनो वैष्णवे बृहन्नसि बृहद्रा वा बृहतीमिन्द्राय वाचं भोरच प्रवाहनावन्धिर दिह व्यवाहनश्वात्रा च प्रचेता विश्ववेदारङ्घारिरधिरम्भारिरवस्विरचितु्राटति विशालपरिणत्यपादिभस्तान संवृष्टा दिह व्यसोदरधामादिवज्ज्योतिः मतनागृभ्याद्वेषाभ्या न कृतेभ्य पुरयन्ता शिवरोधग्युस्वाहा दुषा न अब्दुलाज्यस्य वेद स्वाहायन्न अग्निर्परिवस्कृणा द्वयम् मृधः पुर एभिन्दन् अयगम् शत्रूञ्जयधु जघृशानोऽयम् वाचम् जयधु वाजधातौ उरुविष्णो विक्रमस्वरुक्षयाय नः कृति घृतम् घृतयोनेऽपि प्रयुज्ञपदिन्दिरा सोमोऽगादिकादिभिद्देवानामेतिनिष्कृतमृतस्य यो निमासदमजित्याः म् वैश्वानरञ्जयुरग्ने व्रतपदे त्वम् व्रतानाम् व्रतपदशिया मम तनो त्वय्यभो देयगं सामयया तव तनोर्मय्यभो देशा यथन्नो व्रतपदे व्रतिना व्रतानि त्यन्यानगान्नान्यानुपागामर्वा त्वापरे रविदम् परोपरे स्तन्धे वैर्नम् देव यज्ञायै देवस्ताविदा मध्वा नक्तोस्मै नग्स्पथि देवैनगम् अग्रे नमाले खीरम् यज्ञस्वधिदस्ते निजानप्रणिनायमहते सौभगायाच्चन्महाराजः सुवीरः ृथिव्ये त्वान्दरिक्षाय त्वादिवे त्वा सुन्धदा यवया राजेष्णां सदनमधिवादेश्रे कानिस्पतिरधित्वा स्था देवस्त्वा सितामध्वानक्तुलाभ्यस्तौषधेभ्यमुद्दिवग्रस्तभानान्दरिक्षम् वृणपृथिवीमुकरेण मध्ये गावो यत्र भूरि शृङ्गा अयासः अत्राहतदुर्गायस्य कृष्णा परमम् पदमवभाति भूले कृष्णाः कर्माणि पश्य लोः व्रतानि पस्पशे इन्द्रस्य यज्ञः सखाः तद्विष्णा परमम् पदगम् तदा पश्यन्ति सूरयः लिलेव चक्षुलाततम् ब्रह्मवनिम् द्वाक्षत्रवनिकम् स्वप्रजावनिकम् रागस्पशवनिम् पर्योहामि ब्रह्मजगम् हः क्षत्रन्द्रकम् ह प्रजान्द्रकम् ह रागस्वाषन्द्रकम् ह परिवेदधिपरित्वादेवेर्विशो त्वमवीरश्युपो देवान्देवेर्विष प्रा गुर्वह्निर्षोस्पदे धार्या वसो निधव्या देश्वगन्तान् देव त्वश्चर्वसुरन्वरेवरमध्वमज्ञा जैत्रमधिकृष्णौश्चपुर्वश्यस्यायुरधिपुरोरवाधृते नान्दायत्रञ्छन्दान प्रजाय स्वत्रैष्भञ्जागतं छन्दानप्रजाय स्व भवतन्न रेपसौ मा यज्ञकम् युगम् दृष्टम् वा यज्ञपदिञ्जातवेदो शिवो भवतमद्यनः अग्नावज्ञश्चरति प्रविष्टहीनाम् पुत्रोऽधिराजगेशः स्वाहाकृत्य ब्रह्मणादेजोः विमदेवानाम् विषयागर्भागेयम् आदरुजस्य त्वा देवः विश्वासेनारभे सरिकामारुजा नभ्यस्तौषधेभ्य प्रोक्षाभ्यताम् स्वाञ्चित्स एव गुंहव्यमापो देवैः स्वदतैन पुंसन्ते प्राणो वायुना गच्छता पुंसत्रे रङ्गामिसं यज्ञपतिराधिराधिते नात्तौ न्तरिक्षभजो देवेन वादेनास्य हविषत्मनाय यमस्य तमवा भवर्षीया वर्षीयसि यज्ञे यज्ञपतिन्धाः पृथिव्याः सम्पृजः पाहि नमस्ताहदानार्वा प्रेहि घृदस्य कुल्यामनसः प्रजना सह राजस्तोषेणापो देवे शुद्धायवः शुद्धा यूयन् देवागुणोज्वगुम् शुद्धा वयम् हरिवृत्ता परिभेष्टारावभूयास्मा प्यायताम् प्राणस्ताप्यायतां चक्षुस्ताप्यायता विश्वन्दाप्यायतां जाते प्राणाञ्चु जगामया चक्षुल्या श्रत्रञयत्ते क्रोरञ्जदास्थितप्यायतां तत्र येते न शुन्धतान्नाभिस्ताप्यायताम् वायुस्ताप्यायता गुंशुद्धा स्थरित्रा सम भ्यस्तमोदधेऽभ्यस्यम् पृथिव्येभ्यामोदधेत्रायस्वैनव्यस्पृथिते मैनगम् हिगं दे रक्षद भावोऽधीतमहं रक्षो धमन्तमो नयामि योऽस्मान् देष्टियम् च वयम् विष्म इदमे नमधमन्तमो नयामी शेत्वाद्या वा पृथिवीप्रोन्वाधामच्छन्नारायः सुवीरकुर्वन्धे क्षणन्वि गच्छतम् सन्ते मनसामनः संप्राणेन प्राणो युष्टं देवेभ्यो हव्यं धृतवत्सारीन्द्र प्राणोऽङ्गे अङ्गे निदेध्यैन्द्रोपाणोऽङ्गे अङ्गे विवो भुवद्देव त्वष्टर्भूरिदेशोपा यक्षलक्ष्माणो भवथ देवक्त्रायन्दमवदेघायो नत्वा माराभदं दश्रीरस्य ज्ञत्वा श्रीधात्वा सवरि अन्वातश्च त्वाद्ध्रत्ये पोष्णोरग्रस्यापामोषधे रागुमरोगिश्ले श्रु लङ्घितपावानप्तवसाम्बसा मुद्रं गच्छ स्वाहान्तरिक्रम् गच्छ स्वाहा देवगुम् पवितारं गच्छ स्वाहा रात्रे गच्छ स्वाहा मित्रावरणो गच्छ स्वाहा सोमं गच्छ स्वाहा क्षनोऽन्द्वयम् पुत्रन्नत्तारमशीयसुखधितमोन्द्वै प्रियञ्च भयम् दश्नो धाम् नो धाम् नो राजम् हितो वर्णनोमुञ्जलाभो अग्निया वरुणे विषपामो वर्णनोमुञ्च विमापो हविष्मकेतिमापो हविष्मान्दो अर्धरो हविष्मागम् आविवासति हविष्मागम् हस्ततोर्यः अवोपन्नागृहस्य सदश साधयामि सुन्द्राय सुन्दये शृङ्गे राधकेन्द्राग्नियो भागधेयेष्ठमित्रावरुणयो भागधेयेष्ठविश्वेधाम् देवानाम् भागधेयेष्ठयज्ञे जागृता धिवे त्वादोर्गायत्वोध्वमाध्वरम् पृथिहोत्रायच्छतोमराजन्येश्वरोहमाभेन्मासम्विच्छामा द्वाहि गुंसिषम् प्रजास्त्वमुपावरोऽहम् प्रजास्त्वामुपावरोऽहम् दृष्णोर्गः समिधाहवम् वे शृण्वन्वापो धृषणास्तदेवी शृणोद ग्रावाणा विदुषोऽनुज्ञकम् शृणोतु देवः स पिताहवम् मे देरीरापोहमान्नवाद्योर्मेण विषयन्द्रियावान् वयन्दमस्तम् देवेभ्यो देवत्राभत्तशुक्रगुम् शुक्रमेद्भ्यो येषाम् भागस्थस्वाहाकारशिरस्य पापाम् मर्धगुम् समग्रयोक्षित्यामुन्नये यमाग्ने वृक्षमत्यमावोवाजे मृगञ्जुनाः स यन्ताशीरिषः तमग्ने वृद्रासुरो महो दिवस्तगम् शर्वारुतम् वृक्षगीषिषेवारुणेर्याशिषम् गयत्वम् घोषामिधकःपादिमुत्मनाः आवो राजानमध्वरस्य रुद्रम् भवतारकम् सत्यैरगुम् रोदस्याः अग्न्यम् पुरातनयत्तो रवित्ताध्यन्यरोपमतयेध्वम् अग्निरोहो दारिकसा दारिकीयानुपस्थे मातस्तु रभाव लोके युवा रविः पुरुनष्टयता वा धत्तादृष्ठेनामुदमध्ययुद्धः साध्येवगर्देवकीयन्नो अग्नियज्ञस्य जिद्वामविदा मनुष्या स आयुराधात्सुरभिसानो भद्रामकर्देवहोदिम्नो अद्या आक्रन्दगर्मिस्तनयन्निवद्योः क्षामारेहदेरुधस्तमञ्जन् सद्योजज्ञानोभिः विद्धो अख्यदालोद श्रीभानुनाभात्यन्दः देवसो निपुर्वनेकहोदर्दोषावस्तोरेरिरे विज्ञयासः क्षामेव विश्वा भुवनानि यस्मिन् संसौभनानि न धिरे भावके तद्भ्यन्ताङ्गिरस्तमविश्वाः सुक्षितयः पृथक् अग्ने कामालये विरे अस्यामदम् काममग्नेतमो यस्यामरे गुम्ल इव सुवीरम् अस्यामवाचमभिवाजयन्तोऽस्यामग्ुम्नव च राजरन्ते ष्ठभारताज्ञेद्युमन्तमाभर वसव पुरस्पृथवम् वयम् स्वश्रिदानस्तन्यतोऽपि नस्थ अजलेभिर्नानतद्धर्यमिष्ठः यः पुरतमः पृथोर्णेन्द्रमयादिभर्वन् आयुष्टविश्वतोदधयमर्गर्वरेरण्यः पुनश्च प्राणायरिवरा यक्ष्मपुंसुवामिरे आयुद्धा अग्ने हविषो विषाणाेयत्वामधुरा ऋगव्यम् पिदेव पुत्रमभिरक्षता तस्मैते प्रतिहर्यते जातवेदो विचविषये अग्ने जनामिषयम् विहस्मरे प्रथमम् जज्ञे अग्निरस्मद्वितीयम् परिजातवेदाः ीजपक्षनमनाजस्त्रमिन्धानञ्जरते स्वाधी श्रुजः पादगवन्द्योग्ने बृहद्विरोचसे तम् हृदेभिराहुतः दृशानात्मगुर्व्याव्यौ दुर्वृजे गानः अर्ग्निरमृताभिर्यतेनन्द्यौ रजनयत्सुरेलाः आयधिषे गृपन्दे जनानक्षुजयतो निषद्वन्द्योरभीके अज्ञः श्रद्धवनवर्गयुवानग्स्वाधिरञ्जनयत्सूदयच्च स ते गीयसामनधात्वोदभुतशिक्षस्वभक्त्यस्य शिक्षोः अग्ने राजोऽनुतमस्य प्रभूतो भूयावते सुष्ठुनयश्चवस्वः अग्ने कहन्तमाभरद्भिम्नस्य प्रासुहारयम् विश्वायश्चरभ्यासाभाजेतुसासहज समग्ने पृतनासहकं नयुंसह स्वाहाधरः स्वगुंसि सत्यो अद्भुतो दाताभाजस्य गोपतः उक्षान्नायवशान्नाय सोमपृष्ठाय मेधसे स्तोमेर्विधे माग्नये पद्माहिषूनो अस्य चक्रे अग्ने धनुषाज्वान्नम् सत्वन्नवोर्ज नवोर्जन्धाराजर्मजेटवृगेक्षे क्षन्दः अर्ग्नाजोकुम् षपवसहा भगवर्जमिषञ्चनः आरेपाधस्वदुक्षुणा अर्ग्नेपः स्वस्पपाजः सुरीर्यम् दोषगुम् नयम् मयि अग्ने पावकरोदिषा मन्द्रया देवजिह्या आदेवानिवक्षिक्षिजा पार्वग्ने देवायम् निरावः उपयैकविश्चनः अग्निश्रुज प्रदनवस्य सर्वे प्रश्रुचः कविः श्रुतिरोचन आहुतः उदग्नेश्रिष्टवशुत्राभ्याजन्तगीर अभर्जोदेगः शक्तयः ओ